श्रीहरये नमः अतद्वितीयोऽध्यायः नारत उवाच भ्रातर्येवं विनिहते हरिणा क्रोढमूर्तिना हिरण्यकशिपु राजन् पर्यत यतृषा शुचा आहचेदं वृषा घूर्णस्सन्तष्टदशनश्च दहा निरीशन् धूम्रमम्भरम् कराळदं दुष्प्रेष्य भ्रुकुटीम् ूलमुद्यम् यत् सदसे दानवानिदमब्रवीत् भो भो दानवदयितेया द्विमूर्धन्त्रयक्षसम्भरा सतभागो हयग्रीव नमुचे पाक इल्बल विप्रचित्ते मम वचः पुलो मनसकुनादयः सर्वे क्रियतामासुमाचिरं सपत्नैर्घातितः शूत्रे भ्राता हरिणा समेनाप्युभधावनैः तस्य त्यक्तस्वभावस्य गृणेर्मायावनौकसः भजन्तं भजमानस्य बालस् एवास्थिरात्मनः मश्चूलभिन्नग्रीवस्य रुधिरप्रियं तर्पयिष्ये भ्रातरं मे गतव्यतः तस्मिन् कूटे हि ते नष्टे कृत्तमूले वनस्पधौ विटपा इव सूक्षन्ते विष्णुप्राणादिवौकसः तावत्या तभुवं यूयं विप्रक्षत्रसमेधिना दयद्वं तपो यज्ञ स्वाध्यायव्रतधानिनः विष्णोर्द्विजक्रियो मूलो यज्ञो धर्ममयः पुमान् देवर्षि पितृभूताना यत्र यत्र द्विजो गावो वेदावर्णाश्रमाक्रियाः तं ृताः तथा प्रजानां कथनं विदधो कथनप्रिया पुरग्रामव्रजोत्यानक्षेत्र रामश्रमाकरान् केटकर्वडगोषांश्च च केचित्कनित्रैर्विभुतुेतु प्राकार केचित् परसुपाणयः प्रधानन् शरणान्ये प्रजानां ज्वलितोल्मुखैः एवं विप्रकृते लोके दैत्येद्रानुचरैर्मुहुः दिवं देवा परित्यज्य भुवि चेरुरलक्षिताः हिरण्यकशिपुर्भ्रातुः सम्परे कृत्वा कटोधकादीनि भ्रातृपुत्रा न शान्त्वयत् दृष्टं भूतसन्तापनं वृकं कालनाभं महानाभं हरिश्मश्रुम तोत्कचं तन्मातरं वृषा भानुं दितिं च जननीं गिरा श्लक्ष्णयादेशकालज्ञश्वर हिरण्यकशिपुरुवाच अम्बाम्बहे वधूपुत्रा वीरं मार्गत शोचितुं रिपोरभिमुखे सुराणां वध भूतानामिह संवासः प्रपायामि वसुव्रते दैवेनैकत्र नीतानां मुन्नीतानां स्वकर्मभिः नित्य आत्मा व्ययः शुद्धः चक्षुषा भ्राम्यणे न दृश्यते चलती वू एवं गुणे भ्राम्यमाणे मनस्य विकलः पुमान् याति तत्साम्यतां भद्रे ह्यलिङ्गो एष आत्मविपर्यास्यो ह्यलिङ्गे एष प्रिया प्रियै योगो वियोगकर्मसंस्मृतिः सम्भवश्च विनाशश्च लशोकश्च वि विविध स्मृतः स्मृतिरेव च अन्त्राप्युदाहरन्ति इमम् इतिहासं पुरातनं यमस्य प्रेतबन्धूनां संवादं तं निबोधत उसीनरेष्वभूत्रा जयज्ञ इति विश्रुतः सपत्नैर्निहतो युद्धे ज्ञादयस्तम् उपासत विसीर्णरत्नकवचं विभ्रष्टाभरणश्रजं शरनिर्भिन्नहृदयं सयानम् अश्रुगाविलं प्रकीर्णकेशं ध्वस्ताक्षं रबसादष्टदच्चधं रजकुण्टमुकाम्भोजं चिन्नायुतभुजं रथे उसी नरेन्त्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष नन्द्यो मुहुस्ततः पदयोरुपापतन् रुतत्य उच्छै दैधाङ्क्रिपङ्गजं सिञ्चत्य अश्रैकुशकुङ्कुमारुणैः विस्र केशाभरणः सुषं नृणा सृजन्त्य आक्रन्दनयाभिलेपि रे अहो विधारा कूणे नभो भवान्णी दृग गोचरां दशा उसी नसी वृद्धिपुरा कृतोऽधुनायेन शुचां विवर्धनः त्वया कृतज्ञेन वयं महीपते कथं विनाश्याम सुहृत्तमेन ते तत्रानुयानं तव वीरभातयोः शुश्रूषतीनां दिशयत्र एवं विलपतीनां वै परिगृह्य मृतं पतिम् अनीचतीनां निर्हारमार्गोस्तं संनयवर्ततां तत्र प्रेतभन्तूनाम् आश्रित्य परिदेवितम् आहतान् बालको भूत्वा यमस्वयमुपागतः अहो अमीषां वयसादिकानां विपश्यतां लोकभीतिं विमोहः यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि सोचन्त्यपार्थम् अहो वयं धन्यतमाय धत्र त्यक्ता पितृभ्यां न अभक्ष्यमाणा अबला मृगादिभिः स रक्षिता रक्षति यो हि गर्भे य इच्छ धमव्ययो य एव रक्षत्यवलुम्पतेशयः तस्या बला क्रीटनमाहुरीसितोस् चराचरं निग्रहसङ्ग्रहे प्रभुः पतिश्च्युतं दिष्टतितिष्टरक्षितं। तिष्ठरक्षितं गृहे स्थितं तद्विकथं विनश्यति जीवत्यनाथोऽपि ददीक्षतो वने गृहेऽपि गुप्तोस्य हतो न जीवति भूतानि तैस्तैर्निजयोनि कर्मभैर्भवन्ति काले न भवन्ति सर्वसः न तत्र आत्मा प्रकृतावपि स्थितस्तस्या गुणैरन्यतमो निबध्यते इत्तं शरीरं पुरुषस्य मोहजं यथा पृथक् भौतिकमीयते गृहं यदौ द गैः पार्थिवस कालेन जातो विकृतो विनश्यति यथा न लो दारुषु भिन्न यीयते यथा निलो देह गतः पृथक् स्थितः यथा न भक् सर्व गतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः सुयज्ञोऽनन्त्वयं चेते मूटायमनुशोचत यः श्रोतायोनुवक्तेः स न दृश्यते न श्रोधो नानुवक्ता यं मुख्योऽप्यत्र महानसुः यत् विहेन्द्रियवानात्मा सचान्यप्राणदेहयोः भूतेन्द्रियमनोलिङ्गान् देहान् उच्चावशान् विभुः भजत्युत्सृजति ह्यन्यस्ताभिश्वेन तेजसा यावलिङ्गान् वितो ह्यात्मा तावत् कर्म निबन्धनं ततो विपर्यय क्लेशो माया योगोऽनुवर्तते वितथाभिनिवेशोऽयं यद्गुणेश्व तद्धृक्वचः यथा मनोरथस्वप्न सर्वम् ऐन्द्रियकं मृषाम् अथ लुब्धको विपिने कश्चित् पक्षिणां निर्मितोऽन्तकाः वितत्य जालं वितते तत्र तत्र प्रलोभयन् कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत तयो कुलिङ्गी सहसा प्रलोभिता सा सज्जतस्य च स्तन्त्र्यां कुलिङ्गस्तां तथा पन्ना निरीक्षपृसदुःखितः स्नेहाधकल्पकृपणकृपणां क्रुपन क्रुपन पर्यदेवयत् अहो स्त्रिया करुणया विभुः कृपणम् किं करिष्यति कामं नयतु मां de nada मनोहि मे दीनेन जीवता दुःखम् अनेन विदुरायुषा कथं त्वजातवक्षां मातृहीनान् बिभर्म्यहं मन्तभाग्या नीडे मे मातरं प्रजाः एवं कुलिङ्कं विलपन्नमारात्प्रियाभियोगधुरम् अश्रुकण्ठं स एव तं सा विव्यातकाल हितो विलीनः एवं यूयम् अपश्यन्त्य आत्मापायम् अबुद्धयः नैनं प्राप्स्यतश्चोतन्त्यः पतिं वर्षसतैरपि हिरण्यकशिपुरुवाच बाल एवं प्रवधति सर्वे विस्मितश्चेतसः ज्ञातयो मे निरे सर्वम् अनिन्त्यमयतोथितं यमयेधुपाज्ञाय तत्रैवान्तरधीयत ज्ञातयोऽपि सुयज्ञस्य चक्रु यत्साम्परायिकं ततः सोचतमायूयं परं सात्मानेमेव च क आत्मा कपरो स्व परापि निवेशेन विना ज्ञानेन देहिना नारदौ वाचा इति दैत्यपतेर्वाक्यं दिदिराकर्ण्यसनुषा पुत्रशोकं क्षणात् त्यक्त्वा इति श्रीमद्भागवते महापुराणे सप्तमस्कन्ते दितिशोकापनयनं नाम द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज जय